सम्भाषणसन्देशः फेब्रुवरि ट्वेन्टि एय्टीन् मासस्य मासपत्रिका बालमोदिनी अधिकमूल्यकं चित्रं कथाकारः वर्मा कदाचित् कश्चन राजा स्वस्य चित्रं लेखयितुम् ऐच्छत् एतादृशं चित्रं जीवितावधौ एकवारमेव लेखितुं शक्यते इत्यतः सः मन्त्रिगणम् आदिष्टवान् अत्युत्तमं चित्रकारं किञ्चित् अन्विष्य सः अत्र आनीयताम् इति मन्त्रिप्रभृतयः उत्तमस्य कलाकारस्य अन्वेषणे उद्यताः अभवन् अन्ते तैः ज्ञातं यत् कस्मिंश्चित् ग्रामे कश्चन चित्रकारः अस्ति तेन यत् चित्रं लिख्यते तद् भवति अपूर्वमिति ते एतां वार्तां राजानं निवेदितवन्तः राजा चित्रकारं आनाय्य अवदत् भवता मम उत्कृष्टं चित्रं सज्जीकरणीयम् इति चित्रकारः चित्रलेखनम् अभ्युपगत्य अवदत् मया कियतः मूल्यस्य चित्रं लेखनीयं इति उच्यताम् किं मूल्यभेदात् चित्रलेखने भेदः भवेत् इति आश्चर्येण अपृच्छत् राजा आम् अतः एव मया पृष्टम् मूल्यकं चित्रं लेखनीयमिति यथा देशं चित्रं लेखिष्यामि अहम् इति विनयेन अवदत् चित्रकारः अल्पमूल्यके चित्रं किं भवितुमर्हेत् राजा अपृच्छत् तत्र भवतः यत् वास्तविकं रूपं स्यात् तत् चित्रितं भवेत् इति हसन् अवदत् चित्रकारः अधिकमूल्यके चित्रे राजा कुतूहलेन पुनः अपृच्छत् स्वस्य रूपं कीदृशम् इति भवान् यत् चिन्तयति तादृशं रूपं चित्र्यते मया चित्रकारः अवदत् इतोऽधिकमूल्यकमपि चित्रं किं लेखिष्यति भवान् तस्य चित्रस्य किं वैशिष्ट्यं भवेत् राजा अपृच्छत् भवान् यादृशं रूपं सर्वेषां पुरतः उपस्थापयितुम् ऐच्छत् तादृशं रूपं चित्रे चित्यते अतः एतस्य मूल्यम् अत्यधिकम् इति अवदत् चित्रकारः क्षणं विचिन्त्य राजा अवदत् मम वास्तविकं रूपमेव चित्रे चित्र्यतां किन्तु तदर्थं भवते अत्यधिकमूल्यकस्य चित्रस्य कृते यावत् देयं स्यात् तावत् दास्यते मया इति सामान्यस्य चित्रस्य निमित्तम् अत्यधिकस्य मूल्यस्य दानं कथं युज्येत कश्चन मन्त्री अपृच्छत् यत् मम स्वरूपं स्यात् तदेव चित्रकारः लेखिष्यति योग्यं मूल्यं दीयेत चेत् एव चित्रं सर्वेषां पुरतः उपस्थापयितुं योग्यमपि यथा स्यात् तथा करिष्यति चित्रकारः अतः एव अधिक अधिकधनदानम् अभ्युपगतं मया इति अवदत् राजा कथा समाप्ता